गणेशपुराणं क्रीडाखण्डम् अध्यायं वन् हण्ड्रेड् अण्ड् टर्टि फोर् क उवाच बालसवृधे तत्र दिवसे दिवसे शशी आनन्दं जनयन् माधुः चरितै चरितैस्वकैः व्यास उवाच पतब्रह्मन्गुणशस्य चरितं द्वापरोद्भवं श्रुत्वा पूर्वचरित्राणि न तृप्तिर्मे भवत्प्रभो गजाननेदिनामास्य वाहनं मोषकथं क उवाच अत्रैवोदाहरन्तीममितिहा संपुरादनं प्रह्लादस्य च संवादं भार्गवस्य कवेरपि एवमेव पुरा पृष्ठप्रह्लादेन महामुनिः तस्मै प्रोवाच भगवान् कविस्तत् शृणुसाम्प्रदम् शृणुप्रह्लादयेनास्य वाहनमूषको भवत तदकं सम्प्रवक्ष्यामि श्रवणात्सर्वकामदम् पुरा शक्रसभामध्ये क्रौञ्जौ गन्धर्वसत्तमः वामदेव मुनिं शोध त्वरावान् प्रपदाहनत स शशाप च गन्धर्वमूषकस्त्वं भविष्यसि कल्पयिष्यति वाकत्वे गुणेश्वरः स करुणायुक्तो मोक्षं नेष्यति विश्वकृत पपाद शोधपपादमूषकाकृतिः गिरिशृङ्गनि भो कोरो महारोमा महास्वनः महावीर्यो महादंष्ट्रो महास्वनविराजितः तस्याश्रमे महाकौरमुपद्रवमधाकरोत् भक्षयामास धान्यानि भङ्क्त्वा मृत्पात्रसञ्चयान् पुस्तकानि च वस्त्राणि वल्कलानि महान्त्यपि ससारभूतं यत् सर्वं भक्षयामास मोषकः पुच्छाखादेन वृक्षान् पादयामास भूतले चुञ्चुकारेण शब्देन गर्जयामासविष्टपं ज्ञात्वा तथाविधं तं तु चिन्तामापमुनीश्वरः दुर्जनस्य बलात्कारैस्थानं त्याज्यं न संशयः अधुना क्वानुगन्तव्यं कस्मिन्स्थाने स्थाने सुखं भवेत् प्राणत्यागे महद्दोषं वदन्ति शास्त्रचिन्तकाः कथं मुखाश्रमे दुःखे प्राप्तं कमप्रसङ्गदः कस्य वा स्मरणं कार्यम् को वा दुःखात् प्रमोक्ष्यति क एनं नाशयेदत्र कस्समर्थो भवेद्वधे कमद्यशरणं व्याह्यं को नस्त्रादा भविष्यति एवं पितृवच श्रुत्वा बालको नन्दविक्रमः उवाच मधुरं वाक्यं चिन्तां मा कुरु सर्वथा मयि तिष्ठदिदुष्टानां संहारिणिमहाप्रभौ पुत्रतां ते प्रयातोऽस्मि विधास्येते प्रियं तु यत यस्य मे क्रन्ति पृथिवीशीर्णतामियाद पर्वताश्चूर्णन्ता मापुः पादाखादेन मे मुने पश्य मे कौतुकं तात न याम्येनं तुवाहताम् एवमुक्त्वा सृजत्पाश्यं कोडिसूर्यनिभं शिशुः मेखेष्विवतडित्पुञ्ज शुशुभे सौन्दरिक्षगः तत्यजुर्भयदो देवास्वानिधिष्ण्यानि तत्क्षणाद स ययौवन्निवदनो दशदिग्भ्रमणेरथः पादाले मूषकं कंठे बद्ध्वा बहिरकाशयत मूर्च्छामवापमहदी माघु पाशबलार्दितः शुशोच परमक्रुद्धो निरुद्धश्वासमारुतः कथं कालस्य मरणमागतं दैवनिर्मितम् भावितव्यं भवत्येव पुरुषार्थो निरर्थकः येन दंष्ट्राग्रमात्रेण धारिताः पर्वदा बहु न मया नराः तस्य मेकेन पाशेन कण्ठो गदायुषः उवाच मूषके प्रब्रुवत्येवं यावत्तावद्गजाननः चकर्षमनसा तं स सोगान्मूषकसंयुतः यथा गारूढशास्त्रज्ञः सर्पं कर्षति तत्क्षणाद स पाशकण्ठो मूषकोर्लब्धधीः क्षणाद नमस्कृत्य विभुं देवं गजाननमनामयं तुष्टावपरया भक्रियाचिदानन्दखनं प्रभुं त्वमेव जगदां नाथकर्ता हर्ता प्रपालकः गुणत्रयविहीनश्च गुणत्रय सहायकृत मायातीतोऽपि मायावी मायिनामपि मोहकृत ब्रह्मादीना मुनिहृत्पद्मसंस्थितः करणं कारणं कर्ता कारणानां च कारणं शोद्य दृष्टस्वचक्षुभ्यां मदो धन्यं जनुर्मम धन्यामे मे पितरौ नेत्रे तपो विद्याव्रतं जपः क उवाच एव माकर्ण्यतद्वाक्यं प्रीदोः सौ किं दृढां ज्ञात्वा भक्तं तं मूषकं विभुः तवैव पुरुषार्थेन देवद्विजद्रुहो नख निर्गुणोऽहं गुणीजादो दुष्टनाशनहेतवे साधूनां रक्षणार्थाय यतस्त्वं शरणं गदः अधस्ते दत्तमभयं वरं शृणुयमिच्छसि मूषक उवाच नाहं वृणे गजास्य त्वमेव वृणुवाञ्चितं क उवाच इत्युक्तो मूषकेनासौ गर्वितेन गजाननः वाकदां मम यदि सत् चस्तव तथेत्युक्ते स पिङ्गाक्षो रुरोहाक्रम्य तत्क्षणाद भारेण चूर्णयं स्त्वं तु पुनर्देवस याचत अहं ते वाहनं जातो लघुभूतो भवप्रभो या च तस्तस्य वच सा लघुभारो भवद्विभुः यदद्दृष्ट्वा महाश्चर्यं प्रणम्य मुनिरब्रवीत् नाबाले क्वापि मया दृष्टं जगत्त्रये यच्छब्दात्पर्वदाशीर्णा लोकपालाश्चुतस्तलाः सत्वया क्षणमात्रेण नीतोवाहनताम्बलाद तद आगत्य वत्सला गृह्यतं शिशुं प्रश्नोत्तौ पाययामासस्तनौ मादा मुदायुधा उवाच न च जानेते स्वरूपं च पराक्रमं जन्मजन्मान्तरीयेण पुण्येन नौ गृहं गतः ततः समूषकं बद्ध्वा चिक्रीडे प्राकृतो यथा एवं ते कथिता वाहता य मूषकवाहतापुराणे क्रीडाखंडे चुस्िशाधिकम्याय